मार्कण्डेयपुराणम् अध्यायं फोर्टिसिक्स् क्रौष्टुगिरिवाच भगवंस्त्वण्डसम्भूतिर्यथावत्कथिता मम ब्रह्माण्डे ब्रह्मणो जन्म तथा चोक्तं महात्मनः ये, ये ददिच्छाम्यसं श्रोतुं त्वत्तो भृगुकुद्भव यदा न सृष्टिभूदस्ति कि चास्ति वाले व्रलय सौंदृते मकंडेय उच यदा दु प्रकृत विश्वदोच्य विवद्भि प्रतिसर स्वात्मस्थित्रे विकारे तदा संहृदे प्रकृति पुष्स्व साविषद तदात स्यवस्थितुद्रृवूनौ तत्प्रोधौ च परस्परम् किलेषु वा यथा तैलं कृदं पयसि वा तथा तमसि सत्त्वे च रजोऽप्यनुसृतं स्थितम् उत्पत्तिर्ब्रह्मणो यावदायुषोऽद्विपरार्थिकं परेशस्य तत्समासंयमे अहर्मुखे प्रबुद्धस्तु जगदाधिरनादिमान् सर्वहेदुरचिन्त्यात्मा परः कोऽप्यपरक्रियः प्रकृतिं पुरुषं चैव प्राविश्याशु जगत्पदिः क्षोभयामासयोगेन परेण परमेश्वरः यथा मदो नवस्त्रीणां यथा वा माधवानिलः अनुप्रविष्टक्षोभाय तथा संयोगमूर्तिमान् प्रधाने क्षोभ्यमानेदु स देवो समुत्पन्नोण्डकोशस्थो यथा ते कथितं मया स एव क्षोभकः पूर्वं स क्षोभ्यः प्रकृतेपदिः ससङ्कोचविकाशाभ्यां प्रधानत्वेऽपि स्थितः उत्पन्नः स जगद्योनिरगुणोऽपि रजोगुणं ब्रह्मत्वे सप्रजा सृष्ट्वा तदसत्त्वाधिरेकवान् विष्णुत्वमेत्य धर्मेण कुरुते परिपालनं तदस्तमो ततस्तमो गुणोदृक्तो रुद्रत्वे चाखिलं जगद उपसंहृत्य वैषेदे त्रैलोक्यं त्रिगुणो गुणः यथा प्राग्व्यापहः क्षेत्रीपालको लावकस्तथा यथा ससंज्ञामायाति ब्रह्मविष्णुीसकारिणीं ब्रह्मत्वे सृजते लोकान् रुद्रत्वे संहरत्यपि विष्णुत्वे चाप्युदासीनस् तिस्रोऽवस्तास्वयंभुवः रजो ब्रह्मातमो रुद्रो विष्णुः स त्वं जगत्पदिः यद एव त्रयो देवा येदेव त्रयो गुणाः अन्योन्यमिथुना हेदे क्षणं वियोगो न ह्येषां ब्रह्मा जगत्पूर्वो देव देवश्च दुर्मुखः रजोगुणं समाश्रित्यष्टत्वे सव्यवस्थितः हिरण्यगर्भो देवादिरनादिरूपचारदः भूपद्मकर्णिका संस्तो ब्रह्माग्रे समजायद तस्य वर्षशतं त्वेकं परमायुर्महात्मनः ब्रह्मेणैव हि मानेन तस्य सङ्ख्यां निबोधमे निमेषैर्दशभिकाष्ठा तथा पञ्चभिरुच्यते कलास्त्रिंशच्च वै काष्ठा मुहूर्तं त्रिंशत्थाः अहोरात्रं मुहूर्तानां नृणां त्रिंशत् वै स्मृतम् अहोरात्रैश्च पक्षौ द्वौ मास उच्यते वर्षम् द्वे यने दक्षिणोत्तरे तदेवानामहोरात्रं दिनं तत्रोत्तरायणं दिव्यैर्वषसहस्रैस्तु कृतत्रेदादिसंधं चतुर्युगं द्वादशभिस्तद्विभागं शृणुष्व मे चत्वारि द्ःसहस्राणि वर्षाणां कृतमुच्यते शतानि सन्ध्याचत्वारि सन्ध्यांशश्च तथाविधः त्रेधा त्रीणि सहस्राणि दिव्याब्दानां शतत्रयं तत्सन्ध्या तत्समा चैव तथाविधः द्वापरं द्वे सहस्रेदु द्वौ वर्षाणां द्वे शते तथा तस्य सन्ध्यासमाख्यादा द्वे शताब्दे तदं शकः कलिसहस्रं दिव्यानां मब्धानां द्विजसतम सन्ध्यासन्ध्यांश कश्चैव शतकौ समुदाहृदौ एषा द्वादशसाहस्री युगाख्या कविभिः कृता सहस्र सहस्रगुणितमो ब्राह्म्यमुदाहृदं ब्रह्मणो दिवसे ब्रह्मन्मनवस्युश्चतुर्दश भवन्दिभागषस्तेषां सहस्रं तद्विभज्यते देवा सप्तर्षयसेन्द्रा मनुस्तत्सूनवो नृपाः मनुना सहसृज्यन्ते संह्रियन्ते च पूर्ववद चतुर्युगानां सङ्ख्यादा साधिकाह्येकसप्ततिः मन्वन्तरं तस्य सङ्ख्यां मानुषाब्दैर्निबोधमे त्रिंशत्कोट्यस्तु सम्पूर्णा सङ्ख्यादा सङ्ख्यया द्विज सप्तषष्टिस्तधान्यानि नियुतानि च संख्यया विंशतिश्च सहस्राणि कालोऽयं साधिकं विना ये प्रोक्तं दिव्यैर्वर्षैर्निबोधमे सहस्राणि दिव्यया संख्यया युधं द्विपञ्चाशत् तथान्यानि सहस्राण्यधिकानि तु चतुर्दशगुणो ह्येष कालो ब्रह्म्य महस्मृतं तस्यान्ते प्रलयः प्रोक्तो ब्रह्मन्नैमित्तिको भूर्लोकोऽथ भु भुवर्लोकस्वर्लोकश्च विनाशिनः तदा विनाशमायान्ति महर्लोकश्च तिष्ठति तद्वासिनोऽपितापेन जनलोकं प्रयान्ति वै ये कार्णवे चत्रैलोक्ये ब्रह्मा स्वपि दिवै, दिवै निशि तत् प्रमाणव सारात्रिस्त सृज्य पुनः ये वंदु वर्षमेकं ब्रह्मणो वर्षमेक वर्ष शुत शि तर्षाण परमीय पंचाश्दर्षम कीर्त एवमस्य परार्धन्तुव्यतीतं द्विजसत्तमा यस्यान्ते भून्महाकल्पः आत्म इत्यभि द्वितीयस्य परार्थस्य वर्तमानस्य वै द्विजवाराह इति कल्पोऽयं प्रथमः परिकल्पितः इति श्रीमार्कण्डेयपुराणे ब्रह्मायुप्रमाणो नाम षट्चत्वारिंशोऽध्यायः ओ